एवमीदृशकम् स्वप्नं द्रक्ष्यसि त्वं विशाम्पते मा तत्कृते ह्यनुध्याहि कालो हि दुरतिक्रमः स्वस्तितेस्तु गमिष्यामि कैलासम् पर्वतम् प्रति अप्रमत्तस्थितो दान्तः पृथिवीम् परिपालय वैशम्पायन उवाच एवमुक्त्वा स भगवान् कैलासम् पर्वतम् ययौ कृष्णद्वैपायनो व्यासः सह शिष्यैः श्रुतानुगैः गते पितामहे राजा चिन्ता शोकसमन्वितः निःश्वसन् उष्णमसकृत्तमेवार्थे विचिन्तयन् कथम् तु शक्येतपौरुषेण प्रबाधितुम् अवश्यमेव भविता यदुक्तम् परमर्षिणा ततोऽब्रवीन्महातेजाः सर्वान् भ्रातृन् युधिष्ठिरः श्रुतं वै पुरुषव्याघ्रा यन्मां द्वैपायनोऽब्रवीत् तदा तद्वचनं श्रुत्वा मरणे निश्चिता सर्वक्षत्रस्य निधने यद्यहं हेतुरीप्सितः कालेन निर्मितस्तात कोममार्थोस्ति जीवतः एवम् ब्रुवन्तम् राजानम् फाल्गुनः प्रत्यभाषत महाराजन् कश्मलम् घोरम् प्रविशो बुद्धिनाशनं संप्रधार्य महाराज यत्क्षेमम् तत्समाचर ततो तथ्रवीत सत्यधृतिर्भ्रातृन्सर्वाण्युधिष्ठि दैपा से वचनम्यं सामचित